अथ एकदशोध्याय नारद उवाच पिताह सभांता कथ्यम निबोध मे शक्यते यदेमे भारत पुरा देयुगे राज्यो भगवान् दिव आगच्छन् मानुषम् लोकम् दिदृक्षुर्विगतक्लमः चरन्मानुषरूपेण सभाम् स्वयं स्वयम्भुवः सतामकथयन् मह्यम् ब्राह्मीं तत्वेन पाण्डवा अप्रमेयाम् सभाम् दिव्यां मानसीम् भरतर्षभा अनिर्देश्याम् प्रभावेणा सर्वभूतमनोरमाम् श्रुत्वा गुणानहम् तस्याः सभायाः पाण्डवर्षभा दर्शनेत्सुस्तथा राजन्नादित्यमिदमब्रुवम् भगवन् द्रष्टुमिच्छामि पितामह सभां शुभां येन वा तपसा शक्त्या गोपते औषधैर्वा तथा युक्तैरुत्तमापानाशिनी तन्ममाचक्ष्वभगवन् पश्येयं तां सभां यथा सतन्मम वचः श्रुत्वा सहस्रांशुर्दिवाकरः प्रोवाच भरतः श्रेष्ठ व्रतम् वर्षसहस्रिकम् ब्रह्मव्रतमुपास्वत्वम् प्रयतेनान्तरात्मना ततोहं हिमवत्पृष्ठे समारब्धो महाव्रतम् ततः स भगवान् सूर्यो मामुपादाय वीर्यवान् आगच्छक्ताम् सभाम् ब्राह्मीं विपाप्मा विगतक्लमः